अथ चतुष्षष्टितमः सर्गः वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः विलपन्नेव धर्मात्मा कौसल्यामिदमब्रवीत् तदज्ञानान् महत्पापम् कृत्वा सङ्कुलितेन्द्रियः एकस्त्वचिन्तयम् बुद्ध्या कथम् नु भवेत् ततस्तम् घटमादाय पूर्णम् परमवारिणा आश्रमम् तमहम् प्राप्य यथाख्यातपथम् गतः तत्राहम् दुर्बलावन्धौ वृद्धावपरिणायकौ अपश्यन्तस्य पितरौ लोनपक्षाविमद्विजौ तन्निमित्ताभिरासीनौ कथाभिरपरिश्रमौ तामाशाम् शोकोपहतचित्तश्च भयसन्त्रस्तचेतनः तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः पदशब्दम् तु मे श्रुत्वा मुनिर्वाक्यमभाषत किञ्चिरायसि मे पुत्रपानीयम् क्षिप्रमाणया तातसलिले क्रीडितम् त्वया उत्कण्ठिता मातेयम् प्रविशक्षिप्रमाश्रमम् यद्व्यलीकम् कृतम् पुत्रमात्रा ते न तन्मनसि कर्तव्यम् त्वया तात तपस्विना त्वम् गतिस्त्वगतीनाम् चक्षुस्त्वम् हीनचक्षुषा समासक्तास्त्वयि प्राणाः कथम् वाचा तमहम् सज्जमानया हीनव्यञ्जनया प्रेक्ष्य मनसः कर्मचेष्टाभिरभिसंस्तभ्यवाग्बलम् आचक्षे तस्मै पुत्रव्यसनजम् भयम् क्षत्रियोऽहम् दशरथो पुत्रो महात्मनः सज्जनावमतं दुःखमिदम् प्राप्तं स्वकर्मजम् भगवंश्चापहस्तोऽहम् सरयूतीरमागतः जिघाम् सुष्मापदम् किञ्चिन्निपानेवागतम् गजम् ततः मया शब्दो जले कुम्भस्य पूर्यतः विपोयमित मावाहम बाणेनाहत मया ग्वा तीरम पश्युणा गत प्राण शयानम भुवतापस ततस्त वचनादुपेपरत्य महसा बाण उधमतदा बाणेन सहसा, सहसा स्वर्गस्थि भगवन्ता बभौ शोचन्नन्धाविति विलप्य च अज्ञानाद्भवत पुत्रः सहसाभिहतो मया शेषमेवम् गते यत्स्यात् तत्प्रसीदतु मे मुनिः सतच्छ्रुत्वा वचः क्रूरम् मया तदघशंसिना नाशकतीव्रमायासम् सकर्तुम् भगवान् ऋषिः सबाष्पूर्णवदनो निःश्वसञ्छोकमूर्च्छितः मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् यद्येतदशुभम् कर्म नस्ममेकथये स्वयम् फलेन्मूर्धास्मते राजन् सद्यः शतसहस्रधा क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः ज्ञानपूर्वम् कृतस्थाना च्यापयेदपि वज्रिणम् सप्तधातु भवेन्मूर्धा मुनौ ज्ञानाद्विसृजतः शस्तम् तादृशे ब्रह्मवादिनी अज्ञानाधिगतम् यस्मादिदम् ते तेन जीवसे अभिह्यकुशलम् न कुतो भवान नयनौ नृपतम् देशमिति माम् अध्यतं अद्यतम् द्रष्टुमिच्छावः पुत्रम् पश्चिमदर्शनम् रुधिरेणावसिक्ताङ्गम् प्रकीर्णाजिनवाससम् शयानम् भुवि निःसञ्ज्ञम् धर्मराजवशम् गतम् अथाहमेकस्तम् देशम् नीत्वा तौ भृशदुःखितौ अस्पर्शयमहम् पुत्रम् तम् मुनिम् सह तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ निपेततुः शरीरेऽस्य पिता चैनमुवाचः नाभिवादयसे माद्य न किम् च शेषे तु भूमौ त्वम् वत्स किम् कुपितो ह्यसि नन्वहन्ते प्रियः पुत्रमातरम् पश्य धार्मिकी किम् च नालिङ्गसे पुत्रसुकुमारवचो वद कस्य वा पररात्रेऽहम् श्रोष्यामि हृदयङ्गमम् अधीयानस्य मधुरम् शास्त्रम् वाऽ्यद्विशेषतः को माम् सन्ध्यामुपास्यैव स्नात्वा श्लाघयिष्यत्यपासीनः पुत्रशोकभयार्दितम् कन्दमूलफलम् हृत्वा यो माम् प्रियमिवातिथिम् भोजयिष्यत्य कर्मण्यमप्रग्रहमनायकम् इमामन्धाञ्च वृद्धाम् च मातरम् ते तपस्विनी कथम् पुत्रभरिष्यामि कृपणाम् पुत्रगर्धिनी तिष्ठ पुत्र यमस्य सदनम् प्रति श्वो मया सह गन्तासि जनन्या च समेधितः उभावपि च शोकार्तावनाथौ कृपणौ वने क्षिप्रमेव गमिष्यावस्त्वया हीनौ यमक्षयम् ततो वैवस्वतं स्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् क्षमतां धर्मराजो मे बिभृयात् पितरा वयम् दातुमर्हति धर्मात्मा लोकपालो महायशाः ईदृशस्य ममा क्षय्यामेकामभयदक्षिणा अपापोऽसि यथा पुत्र निहतः पापकर्मणा तेन सत्येन गच्छाशु ये लोकास्त्रस्त्रयोजिनाम् याम् हि शूरा गतिम् यान्ति सङ्ग्रामेष्वनिवर्तिनः हतास्त्वभिमुखाः पुत्रगतिम् ताम् परमाम् व्रजा याम् गतिम् सगरः शैव्यो जयः मारश्च पुत्रका सर्व बहुशोधुधु प्राप्तास्ता पुत्रक या गति भूताध्यापस भूमिदिताने एक पत्व्रतसोहस्रदूणा गुरसेभृता देहनसताचता निवस्कुले गुशला गति स तु यास्यति येन त्वम् निहतो मम बान्धवः एवम् सकृपणम् तत्र पर्यदेव यता सकृत् ततोऽस्मै कर्तुमुदकम् प्रवृत्तः सह भार्यया स दिव्येन रूपेण मुनिपुत्रस्वकर्मभिः स्वर्गमध्यारुहत्क्षिप्रम् शक्रेण सह धर्मवित् आबभाषे वृद्धौ शक्रेण सह तापसः आश्वस्य च मुहूर्तम् तु पितरम् वाक्यमब्रवीत् महत्प्राप्तो भवतो परिचारणात् भवन्तावपि च क्षिप्रम् मम मूलमुपैष्यतः एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता आरुरोहदिवम् क्षिप्रम् मुनिपुत्रो जितेन्द्रियः सकृत्वाथोदकम् तूर्णम् तापसः सह भार्यया मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् अद्यैव जहि माम् राजन्मरणेनास्ति मे व्यथा यश्शरेणैकपुत्रम् माम् त्वमकार्शीरपुत्रकम् त्वयापि च यदज्ञानान्निहतो मे स बालकः तेन त्वामपि शप्स्येऽहम् सुदुःखमतिदारुणम् पुत्रव्यसनजम् दुःखम् यदेतन्मम साम्प्रतम् एवम् त्वम् पुत्रशोकेन राजम् कालम् करिष्यसि अज्ञानात्त्वहतो यस्मात् क्षत्रियेण त्वया मुनिः तस्मात्त्वान्नाविशत्याशु ब्रह्म हत्या न राधिपा त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति जीवितान्तकरो घोरो दातारमिव दक्षिणा एवम् शापम् अयुन्यस्य विलप्य करुणम् बहु चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् तदेतच्चिन्तयानेन स्मृतम् पापम् मया इत्युक्त्वा सरुदंस्त्रस्तो भार्यामाहतु भूमिपः यदाहं पुत्रशोकेन संत्यजिष्यामि जीवितं चक्षुर्भ्याम् त्वान्न पश्यामि कौसल्ये त्वम् हि माम् स्पृशा यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न यदि माम् संस्पृशे द्रामः सकृतम् वा धनम् वा यौवराज्यम् वा न तन्मे सदृशम् देवि यन्मया राघवे कृतम् सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः चक्षुषा त्वाम् न पश्यामि स्मृतिर्मम विलुप्यते दूतावैव स्वतस्यैते त्वरयन्ति माम् अतस्तु किम् दुःखतरम् यदहम् जीवितक्षये न हि पश्यामि धर्मज्ञम् रामम् सत्यपराक्रमम् तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः उच्छोषयति वै प्राणान् वारिस्तोकमिवातपः न मनुष्या ते मनुष्यादेवास्ते ये चारुशुभकुण्डलम् मुखम् द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः पद्मपत्रे क्षणम् सुभ्रुसुदंष्ट्रम् चारु नासिकम् धन्याद्रक्ष्यन्ति रामस्य ताराधिपसमम् मुखम् सदृशं शारदस्येन्द्रोः फुल्लस्य कमलस्य च सुगन्धि मम रामस्य धन्याद्रक्ष्यन्ति ये मुखम् निवृत्तवनवासन्तमयोध्याम् द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्गगतं यथा कौसल्ये चित्तमोहेन हृदयम् सीदते तरा वेद येन च संयुक्तान् शब्दस्पर्शरसानहम् चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि क्षीणस्नेहस्य दीपस्य संरक्तारश्मयो यथा अयमात्मभवः मामनाथमचेतनम् संसाधयति वेगेन यथा कूलम् नदीरयः हाराघवमहाबाहो हा ममायासनाशना हापितृप्रियमेनाथ हाममासि गतः सुता हा पश्यामि हा सुमित्रे तपस्विनी हा नृशंसे ममामित्रे कैकेयकुलपांसनि इति मातुश्च रामस्य सुमित्रायाश्च सन्निधौ राजा दशरथ शोचं जीवितागमत तथा तो तीन कथय राजियस गे वृश दुख पीड़ित जान मुदार दर्शन इशे श्रीमद् रे वाकीए आदिका अयोध्या कांडे चत सर्ग